हरि ओम् सीता रामचन्द्र अभ्यां नमः अथ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे त्रयोदश सर्गः महापार्श्वेण सीताम् बलात प्रति बलात्कारम् कर्तुं रावणस्य प्रोत्साहनम् रावणेन शापवश तथा करणे स्वकीय समर्थतायाः प्रतिपादनम् निजपराक्रमस्य प्रशंसनम् च रावणम् क्रुद्धमाज्ञाये महापाशो महाबलहे मुहूर्तम् मनसञ्चिन्त्य प्राञ्जलिर्वाक्यमब्रवीत् यः कल्वे पिवनम् प्राप्य मृगव्याल निषेवितम् न पिबेन्मधु सम्प्राप्य स नरो भवेत् ईश्वरस्येश्वर कोऽस्ति तव शत्रु निबर्हण रमस्व सह वैदेय चत्रो नाक्रम्य मूर्धसु बलात् कुक्कुटवृत्तेन पवर्तस्व महबल आक्रम्याक्रम्य सीताम् वै ताम्भुङ्क च रमस्व च लब्धकामास् ते वा सर्वम् प्रति विधास्यते कुम्भकर्णः स अस्माभिः इन्द्रजी च महाबलः प्रतिषेधयितुम् उपप्रदानं स वज्रम् अपि वज्रिणम् उपप्रदानम् सान्त्वम् वा भेदम् वा कुशलैकृतम् समतीक्रम्य दण्डेन सिद्धिम् अर्थेषु रोचये इह प्राप्तान् वयम् सर्वान् शत्रुन् तव महाबले वशेषस्त्रे प्रतापेन करिष्यामो न संशयः एवम् मुक्तः तदा राजा महापार्श्वेन रावणः तस्य सम्पूजयन् वाक्यम् इदम् वचनमब्रवीत् महापार्श्वे निबोधतम् रहस्यम् किञ्चिदात्मनः चिरवृत्तम् तुलाख्यासे यदवाप्य पुरा मया पितामहस्य भवनं गच्छन्तीं पुञ्जिकस्थलम् चञ्चुर्यमाणां भद्राक्षम् आकाशेऽग्निशिखामिव सा प्रसह्य मया भुक्ता कुता वीव स न भवनं प्राप्ता लोलिता नलिनी यथा तच्च च तथा मन्ये ज्ञातुम् आसीन् महात्मनः अथ सङ्कुपितो वेध मामिदम् वाक्यमब्रवीत् अद्य प्रभूति या मन्याम् बला नारीम् गमिष्यसि तदा तेषामूर्ध फलिष्यति न संशयः इत्यहम् तस्य शापस्य भीतप्रसवमेव ताम् नारोहये बलासीताम् वैद्यहिंशयने शुभे सागरस्येवमेवे गो मारुतस्य विमे गतिः नैतद्दाश्रथिर्वेद यासादयति तेन माम् कोहि चिह्नम् युवासीनम् सुप्तम् गीते गुहाशये क्रुद्धम् मृत्युम् युवासीनम् प्रबोधयितुमिच्छति न मत्तो निर्गतान् बाणान् द्विजिह्वान् पन्न राम पश्यति संग्रामे तेन माम् अभिगच्छति किप्रं वज्रसमैर्वाणे शतधा कर्मकच्युतै रामम् आदीपयिष्यामि उल्काभिरिव कुञ्जरम् तच्चास्य बलमादास्य बलेन महतावृतः उदित सविता काले नक्षत्राणां प्रभां विवये वास न वासवेनापि सह स्व चक्षुषा वरुणेन वपुन मया स्वीयं बाहुबलेन निर्दिता पुरापुरी वैश्रवणेन पालिता इत्याख्ये श्रीमद् रामायणे वाल्मीकीयाधिकारी युद्धकाण्डे त्रयोदशसर्ग श्री सीतारामचन्द्रार्पण